गणेशपुराणं क्रीडाखण्डम् अध्यायं फोर्टी वन् क उवाच एवं प्रशंसितो देव्या देवश्च स विनायकः उवाच पार्वतीं प्रीत्या प्रणिपत्यमुदायुतः गणेश उवाच देवानाम सर्वलोकानां कर्तुम पालनमुत्तमं दुरासदं निहन्तुं च हर्तुं भूभारमेव च माधस्त्वां सेवितुं धर्मं कर्तुं कर्मच वैदिकं, वैदिकम् अवतीर्णोऽस्मि सर्वज्ञे यत् ब्रवीमि करोमि तत् ेवं ब्रुवदिविघ्नेशे सुराः सर्वे तमूचिरे पुनस्तुत्वा च नत्वा च जगत्कारणकारणम् रजांसि विमामेद्भूमेरुडूनिमिहिका अपि जानीयात्स गुणांस्तेयो सागरे जलं धन्यं चक्षुर्हि देवानां यदृष्टौ चरणौ विभो इदानीं नो गदं दुःखं प्राप्तं च स्वस्वकम्पदं दुरासदं हरस्वैनं भूभारं चाखिलेश्वर क इति देववचत्वा जहास स विनायकः पूजे सर्वं करिष्यामि दशायुधरः प्रभुः एवमुक्त्वा सुरान् देवो हर्षगद्गदया गिरा सिंहारूढो ययौ शीघ्रं पुरीं वाराणसीं तदा मन्वयोर्देवगणा गिरिजा गिरिशोऽपि च ज्ञात्वा दुरासदो दैत्यो विनायकमुपागतं देवसेनायुतं वीरो निर्ययौ नगराद् बहिः दृष्ट्वा सेनां तु दैत्यस्य सामात्यां सायुधां दृढां नानाविधायुधवदीं गर्जन्तीं खनवन्मुहुः गुहा विदारयन् सर्वाः स जगर्जविनायकः उवाच महादैत्यं महादैत्यं भ्रान्तोऽस्यद्यापिरेकथम् त्वया बलादेवगणा निर्जिताश्वमहीभुजः मुनयो धृक्दास्सर्वे तदाहं नाभवं खल निर्भयेन त्वया दोषा बहवः सञ्चिताः पुरा तेषां फलमिदानीं त्वं गणेशात् प्राप्तुमर्हसि उपद्रुदास्त्वया लोकास्त्रैलोक्यवासिनोऽखिलाः तदर्थमवतीर्णोऽहमुद्धर्तुं त्वां भुवो भरम् शरणं याहिरे त्यक्त्वा मानं लज्जां सुदुस्त्यजां यासि सङ्ग्रामशिरसि चेदिदानीं मरिष्यसि शिवप्राप्तवरात् सर्वं त्रैलोक्यं पीडितं त्वया एवमुक्त्वा दुष्टबुद्धिं गणेशो रणसम्भ्रमः परशुं तोलयामा सज्ज्वालामाला भास्करं आच्छाद्यभास्करं क्षोभा प्रलया नलसन्निभः जवेन हृदये तस्य त्यक्त्वा शस्त्रम् कृतान्तवद परशुनाहतस्तस्य रोमापि न चचालः क्रोधा संरक्तनयन उदतिष्टग्रसन्निव त्रैलोक्यं तमुवाचाध देवदेवं दुरासदः न देवा देवराजो वा दिक्पाला न वा न मे परः यादास्त्वं तु कथं यादो बालभावाद्व्रजाधुना न बिभेम्यन्तकान्मूढ किमर्थं मर्तुमिच्छसि यवमुक्त्वा तथ कोशान्निष्कास्यां महोज्वलम् क्षुरधारं यदा खादाद्रयश्चूर्णतां ययुः दैत्यस्तेनाहनद्देवमङ्गुशेनवारयत सोऽसि परसुखादेन शतधा भग्ना शिर्मलयुद्धाय ययौ दैत्यो महाबलः त्यक्त्वा युधानि देवोऽपि ववृधे तादृशो बलाद तदो युद्धं तयो तु मूलम् रोमहर्षणं बाहुभ्याम् कूर्पराभ्याम् च मुष्टिभ्याम् तौ प्रजघ्नतुः पादाभ्याम् जानुजङ्घाभ्याम् पृष्ठाभ्याम् च निजघ्नदुः उड्डीयपेदुर्देहे पर्यायेण महास्वनौ पार्ष्णिखादान् प्रकुर्वन्दौ खादान् कूर्परयोरपि सोश्च जानुकादांस्तौ स्कन्दाखादान् परस्परम् दूलि धूलिधूःसरितौ भृशम् परस्परम् जयन्तौ च लपन्तौ साधु साध्विधि एवम् बहुदिनं युद्धं दृष्ट्वा देवा विशस्मिरे चेदसा बहु लज्जन्तौ ज्ञात्वा सामर्थ्यमस्यः तदो विनायको मुष्टिं ललाडे दृढमाहनद स्फुटिदम् मुखमस्याशु धरण्याम्पतितस्यः द्विमुहूर्तम् निपदिदो वज्राहद इवाचलः स कथञ्चित्प्रबुद्धो भूत्यक्वा मूर्च्छौ चिरागदाम् तदात्मानमशक्रं स मनुदे स्म भृशातुरः आययौ सैन्यमध्ये स विनायकः य इदं युद्धकाल उपस्तिदे सजयं जयं प्राप्नुयान्मर्त्यो यथा देवो विनायकः श्री गणेशपुराणे क्रीड़ाखंडे बालचरिते एक